श्रीमद्भागवतपुराणं महात्म्यम् अथ तृतीयोऽध्यायः नारद्वाच ज्ञानयज्ञं करिष्यामि शोकशास्त्रकथोज्वलं भक्तिज्ञानविरागाणां स्थापनार्थं प्रयत्नतः कुत्र मया यज्ञस्थलं तद्वाच महिमाशुकशास्त्रस्य वक्तव्यो वेदपारगैह्रियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा को विधिस्तत्र कर्तव्यो ममेदं ब्रूयतामितः कुमारा उचुः शृणुनारदवक्ष्यामों विनम्राय विवेकिने गङ्गाद्वारसमीपेतो तटमानन्दनामकम् नानाढशिरगणैज्युष्टं देवसिद्धनिषेवितं नानातरुलताकिरणं नवकोमलवालुकं रम्यमेकान्तदेशस्थं हेमपद्मशुभौरभं यस्समीपस्थं जीवानां वैरं चेतति न स्थिरं ज्ञानयज्ञत्वया तत्र कर्तव्योस्य प्रयत्नतः अपूर्वरसरूपा च कथा तत्र भविष्यति पुरस्थं निर्बलं चैव जराजेर्णकलेवरं तद्द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यते यत्र भागवती वार्ता तत्र भक्त्यालुकं व्रजेत् तथा शब्दं क्षमाकर्ण तद् तत्रिकं तरुणायते श्रुत्वाच एवमुक्त्वा कुमारास्ति नारदेन समन्ततः गङ्गातटं समा जग्मोकथापानाय सत्वराः यदा जातास्तटं ते तु तदा कोलाहलोप्यभून् भुर्लोके देवलोके च ब्रह्मलोके तथैव च श्रीमद्भागवतपीयूषपानाय रसलं पटाः धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः चवनस्य गौतमो मेधाति मेधातिथिर्देवलदेवरातौ रामस्तथा गाधिस्तु तस्य साकलो मृकण्डपुत्रातिर्यपि पिह्लादाः योगेश्वरौ व्यासपराशरौ च छायासुको जाजलिजौः मुख्याः सर्वेऽप्यमी मनिगणाः सहं पुत्रशिष्याः स्वस्त्रीभिराय इञ्जुरति प्रणयेन युक्ताः वेदान्तानि च वेदाश्च मन्त्रास्तन्त्रासमूर्तयः दशसप्तपुराणानि षट्सहस्राणि तथा यजुः गङ्गाद्यासरितस्तत्र पुष्करादिसरांसि च क्षेत्राणि च दिश सर्वादण्डकादिवनानि च नगा तिजोजयुस्तत्र देवगन्धर्वदानवाः गुरुत्वात्तत्र नाजातान् भृगुसम्बोध्य चानयत् दीक्षिता नारदे नाथ दत्तमासनमुत्तमम् कुमारा वन्दिता सर्वैर्निदेशो कृष्णतत्पराः वैष्णवास्य विरक्तास्य नाशिनो ब्रह्मचारिणः मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः एकभागे ऋषिगणा तदन्यत्र दिवौकसा देदोपनिषदोऽन्यत्र तीर्थान्यत्र श्रियोऽन्यतः जयशब्दो नमः शब्दशङ्खशब्दस्तथैव च तृणलाजा प्रसूनानां निक्षेप सुमहानभून् विमानानी समारुह्य कियन्तो देवनायकाः कल्पवृक्षप्रसूनैस्तान् सर्वांस्तत्र समाकिरन् श्रुवाच एवं ते स्वेकचित्तेषु श्रीमद्भागवतस्य च महात्म्यमुचिरे स्पष्टं नारदाय महात्मने कुमारा उचुः लथते वर्ण्यतेऽस्माभिर्महिमा सुखशास्त्रजः यस्य श्रवणमात्रेण मुक्तीकरतले सिता सदासेव्या सदासेव्या श्रीमद्भागवती कथा यस्या श्रवणमात्रेण हरिस्त्यत्तं समाश्रयेतम् ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसंमितः परिक्षे सुखसंवादः शृणुभागवतं च तत् तावत्संसारचक्रेऽस्मिन् भ्रमते ज्ञानतः पुमान् यावत्कर्णगता नास्ति सुखशास्त्रकथाक्षणम् किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः स भ्रमावहै एकं भागवतं शास्त्रं गर्जति कथा भागवतस्यापि नित्यं भवति यद्गृहे तद्गृहं तीर्थरूपं हि वसतां पापनाशनम् अश्वमेधसहस्राणि वाजपेयसतानि च सुखशास्त्रकथायाश्च कलां नार्हन्ति षोडशीं तावत्पानि देहेऽस्मिन्निवसन्ति तपोधनाः यावन्न शूयते सम्यक् श्रीमद्भागवतं नरैः न गङ्गा न च गया काशीपुष्करं न प्रयागकं सुखशास्त्रकथायाश्च समतां नयेद् श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवं पठस्व स्वमुखेनैव यदीक्षसि परां गतिं वेदाजिर्वेदमाता च पौरुषं सूक्तमेव च त्रयीभागवतं चैव द्वादशाक्षर एव च द्वादशात्मा प्रयागश्च कालसंवत्सरात्मकः ब्राह्मणाश्चाग्निहोत्रं च सुरभिद्वादशी तथा तुलसी च वसन्तश्च च एतेषां तत्ततः प्राज्ञयेन पृथग्भावयिष्यते यस्य भागवतं शास्त्रं निसं। जन्मकोटे कृतं पापं नश्यते नादृसंशयः श्लोकार्थं श्लोकपादं वा पठेद्भागवतं च य नित्यं पुण्यमवाप्नोति राजसूयासुमेधयोः उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् तुलसीपोषणं चैव धेनूनां सेवनं समम् अन्तकाले तु येनैव श्रूयते सुखशास्रुवाक् प्रत्यातस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति हेमसिंहयुतं चैतद्वैष्णवाय ददासि च कृष्णेन सह सायुज्यं च सा ध्रुवम् आजन्ममात्रमपि येन सठेन किञ्चिच्चित्तं विधाय सुखसात्रकथा न पीता चाण्डालवच्च खरवद्वत तेन नीतं मिथ्या स्वजन्मजननीजनि दुःखभाजा जीवत्सवो निगदितसतु पापकरमायेन श्रुतं सुखकथावचनं न किञ्चिन् धिक्तं नरं पशुसमं भुवि भारभूं भाररूपमेवं वदन्ति दिवीं समाजमुख्याः दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा कोटिजन्म समुत्थेन पुण्येनैव तु लभ्यते तेन योगनिधे धीमन् श्रोतव्यासा प्रयत्नतः दीनानां नियतो नास्ति सर्वदा श्रवणं मतं सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् असत्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया मनोवृत्तेजयस्यैव नियमाचरणं तथा दीक्षां कर्तुम् असक्त्वात् सप्ताहश्रवणं मतम् श्रद्धात् श्रवणे नित्यम् आभेतावद्धि यत्फलम् तत्फलं सुखदेवेन सप्ताहश्रवणे कृतम् मनसश्चाजयाद्रोगात् पुंसां चैवायुषयात् कले दोषबहुत्वाच्च सप्ताहश्रवणं मतं यत्फलं नास्ति तपसा न योगेन समाधिनाम् अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् यज्ञागर्जति सप्ताह सहो गर्जति व्रतासो गर्जति प्रोच्चीर्थान निगर्जति गर्जति सप्ताहोध्यार्जति किंब्रमो गर्जनम तस्र्जति गर्जती